हरि ओम् श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमापुराणे प्रथमस्कन्धे सप्तमोऽध्यायः श्रोवाच तव बलिनो ब्रह्मा ततोपाया न चिन्तयत् सामदान मदानभिरारि च युद्धान्तान् न जानेऽहम् बलम् नूनम् वेतयोर्वा यथा तथम् अज्ञाते तु बले कामम् नैव युद्धम् प्रशस्यते ततिम् करोमि चेदद्य दुष्टयोर्मदमत्तयोः प्रकाशितं भवे नूनम् निर्बलत्वम् मया स्वयम् वधिष्यति तदेकोऽपि निर्बलत्वे प्रकाशिते तानम् नैवाद्ययोग्यम् वा भेदकार्यो कथम् विष्णुम् प्रबोधयाम्यज शेषे सूक्तम् जनार्दनम् हा चतुर्भयम् हावीर्यम् दुःखहास भविष्यति इति सञ्चिन्त्य मनसा पद्मनालगतो गतोब्जः जगामशरणम् विष्णुम् मनसा दुःखनाशकम् तुष्टावबोधनार्थम् तम् शुभय सम्बोधनहरिम् नारायणम् जगन्नाथम् निष्पन्दम् योगनिद्रया ्रह्मो वाच दीननाथ हरे विष्णो वामनोत्तिष्ठ माधव भक्तार्तिरुषीकेश सर्वास जगत्पते अन्तर्यामिन्न मेयात्मन् वासुदेव जगत्पते दुष्टारिनाशकैकाग्र चित्तचक्र गदाधर सर्वज्ञः सर्वलोकेश सर्वशक्ति समन्वितः उत्तिष्ठोत्तिष्ठदेवेश दुःखनाशन पाहि माम् विश्वम्भर विचाराक्ष पुण्यश्रवणकीर्तन जगद्योने निराकार सर्गस्थित्यन्तकारक इमो दैत्यो महाराज हन्तु कामो मदोद्धतो न जानास्य अखिलाधार कथम् माम् सङ्कटे गतम् उपेक्षतेति यदि माम् चरणम् गतम् पालकत्वम् निराधारं भवेत एवं स्तुतोऽपि भगवान् न बुबोध यदा हरिः योगनिद्रा समाक्रान्त तदा ब्रह्मा यचिन्तयत् नूनम् चक्ति समाक्रान्तो विष्णुनिद्रावशम् गतः जजागार न धर्मात्मा किम् करोम्यज्ज हन्तु कामो भो प्राप्तो दानवो मदगर्वितो किम् करोमि क्व गच्छामि नास्ति मे शरणम् क्वचित् इति सञ्चिन्त्य मनसा निश्चयम् प्रतिपद्य च तुष्टावयोगनिद्रान्तामेकाग्ररुदि अस्थितः विचार्य मनसाप्येवम् शक्तिर्मे रक्षणे क्षमा यया ह्य चेत नो विष्णु कुतोऽस्ति स्पन्दवर्जितः देसुर्यथा न जानाति गुणान् तथा हरी न जाति निद्रा मीलितोचन है न निद्रां जातिद्रुध धा संस्कृत्यसौ मंदेनाशे निद्रा निद्रशीक योग वचमापन्न स किंग तस्त योग निद्रेय स्वामी मेरे सिंधु वशे यमी वशीक नूनम् जगदिदम् सर्वम् भगवत्या वशीकृतम् अहम् विष्णु तथा शम्भु सावित्री चरमाप्युमा सर्वे वयम् वशे यस्य नात्र किञ्चिद्विचारणा हैरप्यवशस्य ते यथा न्यप्रकृतो जन ययाभिभूतै का वार्ता इदान्येषाम् महात्मनाम् तम्यद्य योगनिद्राम् वै यया मुक्तो जनादन घटैषदयुद्धे च वासुदेव सनातन इति कृत्वा मतिम् ब्रह्मा पद्मनालस्थितस्तदा तुष्टावयोगनिद्रान्ताम् विष्णो रङ्गेषु संस्थिताम् ब्रह्मोवाच देवी तम् जगते किल कारणम् हि ज्ञातुम् मया सकलवेदवचोऽभिरम्भय यद्विष्णुरप्यखिल लोकविवेककर्ता निद्रावशम् च गमितये पुरुषोत्तमोऽध्य को वेद ते जननिमोहविलासलीलाम् मोहोऽस्म्यहम् हरिरयम् विवश चेते दृक्तया सकलभूतमनो निवासे विद्वत्तमो विभसकोटिजुनिर्गुणाया साङ्ख्या वदन्ति पुरुषम् प्रकृतिम् च या चैतन्यभावरहिताम् जगतश्च कर्त्रीम् किं तादृश्यासि कथमत्र जगन्निवास चैतन्यताविरतो वितस्वत्वा उत्पाद्य नाट्यं तनोषिसगुणा विविधप्रकारम् नो वेत्ति कोऽपि सन्ध्येति नाम परिकल्प्य गुणान् भवानि बुद्धिर्हि बोधकर्णा जगतां सदात्वम् श्रीश्चासि देवि सततम् सुखदासुराणाम् केचित् तथामति धृति किल कान्तिरेव श्रद्धारते च सकलेषु जनेषु मातः नास परम् वितर्कशते प्रमाणम् प्राप्तम् मया यदि ह गतेन त्वम् चात्र सर्वजगताम् जनती जननीति सत्यम् निद्रा तुलाम् वितरता हरिणात्र दृष्टम् त्वम् देवि वेदविदुषामपि दुर्विभाव्या वेदोऽपि न अखिलार्थतया न वेद यस्मात्तदुद्भवमसौ श्रुतिराप्नुवाना प्रत्यक्षमेव सकलम् तव कार्यमेतत् कस्ते चरित्रमखिलम् भूवेद धीमान् नाहं हरे न भवो न सुरास्तथान्ये ज्ञातुम् क्षमाश्च सुनयो न ममात्मजाश्च दुर्वाच्य तव सर्वलोके यज्ञेषु देवि यदि स्वाहेति वेदविदुषो हवने कृतेऽपि न सततम् मखभागधेयम् देवास्त्वमेव विबुधेष्वपि वृत्तिरासि त्राता वयम् भगवती प्रथमम् त्वया वै देवारिसम्भवभयादधुना तथैव भीतोऽस्मि देवि वरदे शरणम् गतोऽस्मि घोरम् निरीक्ष्य मधुना सह कैतभम् च नो वेत्ति विष्णुरधुना मम दुःखमेतत् जाने त्वयात्मविवशीकृतदेहयष्टि पुञ्चादिदेवमथवा जीरानवेन्द्रौ यद् यद्रोचते तव कुरुष्व महानुभावे जानन्ति येन तव देवि परम् प्रभावम् ध्यायन्ति ते हरिहरौ अपि मन्दचित्ता ज्ञातम् मयाद्यजननी प्रकटम् प्रमाणम् यद्विष्णुरप्रतितराम् व्यवशोथ चेते चिन्धुद्भवापि न हरिम् प्रतिबोधितुम् वै शक्तापतिम् तव वशानुगमद्य शक्त्या मन्ये त्वया भगवती प्रसभं रमापि प्रस्वापितानुबुधे विवशीकृतेव धन्यास्त एव भुवि भक्तिपरास्त वाङ्घ्रौ तत्त्वान्यदेव कुर्वन्ति देवि भजनम् निकामम् ज्ञात्वा समस्तजननीम् किल दे कामधेनुम् श्री कार्तिकेतिशुभवृत्तिगुणादयसे विष्णोर्गुणास्ति परिहृत्य गताद्य बन्दीकृतो हरिरसो ननु निद्रयात्र शक्या तवैव भगवत्यमानवत्या तम् शक्तिरेव गजताम् क्लप्रभाव सन्निर्मितम् च सकलं खलु भावमात्रम् तं क्रीडसे निज विनिर्मितमोहजाले नाट्ये यथा विहरते स्वकृते नटो वै विष्णुत्वया प्रकटितय प्रथमम् जुगाधो दत्ता च शक्तिरमलाय खलु पालनाय त्रातम् च सर्वमखिलम् विवशीकृतोऽद्य यद् रोचते तव तथाम्बकरोचिनूनम् सृष्ट्वात्र माम् भगवती प्रविशा प्रविनाशितुम् चे नेच्छासि ते कुरुदयाम् परिशुद्ध्य मौनम् कस्मादिमौ प्रकटितौ किल कालरूपो यद्वा भवान् हसितुम् नु किमिच्छसे माम् कृत्वा अखिलम् जगदिदम् नृमते स्वतन्त्रा लीनम् करोषि सकलम् किल माम् तथैव हन्तुम् त्वमिच्छसि भवाय किमस्त्र चित्रम् कामम् कुरुष्वधमद्य ममैव बात दुःखम् न नमे मरणजम् जगदम्बिकेऽत्र कर्ता त्वयैव विहित प्रथमम् सचायम्, दैत्याहतोऽथ मृत इत्ययशो उत्ति दी गुरुपाभुत तम वाप्य मोचये चिबाली नोचे प्रबोधय हरिनेतदि किल कार्य सूत उचता तेवी तासी त्रेधता ता निसृत्य हरिदेहा संस्थिता पाशत सदा तत्राङ्गानि च सर्वाणि विष्णोरतेजतः निर्गता योग निद्रासा नाशाय च तयो तदा विस्पन्दितशरीरोऽसौ यदा दातो जना जनः धाता परमिकाम् प्राप्तो मदम् दृष्ट्वा हनिं इति श्रीमद्देवी भागवते महापुराणे अष्टादशसहस्राम् संहितायाम् प्रथमस्गन्धे विष्णुप्रबोधो नाम सप्तमोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु